महावाक्यरत्नावले सप्तदशं प्रकरणम् अथ सार्धान्तिकब्रह्मस्वरूपवाक्यानि चतुर्नवतिः सर्वं ह्ये तद्ब्रह्म अयम् आत्मा ब्रह्म सत्यं ज्ञानमनन्तं ब्रह्म प्रज्ञा प्रतिष्ठा प्रज्ञानम् ब्रह्म तदेतद्ब्रह्मा पूर्वम् अनपरमनन्तरम् अबाह्यम् अयम् आत्मा ब्रह्म सर्वानुभूः विज्ञानमानन्दम् ब्रह्म अजरोमरोमृतोभयो ब्रह्मभयं वै ब्रह्म सर्वभूतस्तमेकं नारायणं कारणं पुरुषं कारणं परं ब्रह्म स्वयं प्रकाशः स्वयं ब्रह्म तदेतदद्वयं स्वयं प्रकाशं महानन्दमात्मैवैतदवम् अमृतम् एतद्ब्रह्म सदैव पुरस्तात्सिद्धं ब्रह्म आकाशवत्सूक्ष्मं केवलसत्तामात्रस्वभावं परं ब्रह्म अद्वितीयम् अखिलोपाधिविनिर्मुक्तं तत्सकलशक्त्युपबृंहितम् अनाद्यनन्तम् नित्यं शिवं शान्तम् निर्गुणमित्यादिवाच्यम् अनिर्वाच्यं चैतन्यम् ब्रह्म एकमेव द्वितीयं ब्रह्म सर्वदानवच्छिन्नं परं ब्रह्म सच्चिदानन्दतेजः रूपं तारकम् ब्रह्म तन्नित्यमुक्तमविक्रियं सत्त्वज्ञानानन्तानन्दपूर्णम् सनातनमेकमेवाद्वितीयम् ब्रह्म चित्स्वरूपं निरञ्जनं परं ब्रह्मा तत्त्वम् पदलक्ष्यं प्रत्यगभिन्नं ब्रह्म अखण्डार्थं परं ब्रह्म सर्वकालाबाधितं ब्रह्म सगुणनिर्गुणस्वरूपं ब्रह्म आदिमध्यान्तशून्यं ब्रह्म मायातेतगुणातीतं ब्रह्मा अनन्तम् अप्रेमये अखण्डपरिपूर्णम् ब्रह्म अद्वितीयपरमानन्दनित्यशुद्धबुद्धमुक्तसत्यस्वरूपव्यापकभिन्नापरिच्छिन्नम् ब्रह्म सच्चिदानन्दस्वप्रकाशम् ब्रह्म मनोवाचां मगोचरम् ब्रह्म देशतः कालतो वस्तुतः परिच्छेदरहितं ब्रह्म अखिलप्रमाणागोचरम् ब्रह्म तुरीयं निराकारमेकं ब्रह्म अद्वैतम् अनिर्वाच्यम् ब्रह्म शिवम् प्रशान्तम् अमृतञ्च परं ब्रह्म यदेकम् अक्षरम् निष्क्रियम् शिवम् सन्मात्रम् परं ब्रह्म असावादित्यो ब्रह्म ओमित्येतदक्षरम् परम् ब्रह्म ब्रह्मैवेदमम् अमृतम् पुरस्ताद्ब्रह्म पश्चाद्ब्रह्म दक्षिणतश्चोत्तरेण अधश्चोर्ध्वम् प्रसृतम् ब्रह्मैवेदम् विश्वमिदम् वरिष्ठम् तदेव निष्कलम् ब्रह्म निर्विकल्पम् निरञ्जनम् चैतन्यमेकम् ब्रह्मातः प्रज्ञानम् ब्रह्म मय्यपि ब्रह्मशब्देन तद्ब्रह्म स्वप्रकाशात्मरूपकम् एतद्भावविनिर्मुक्तं तद्ब्रह्म ब्रह्म तत्परम् चिन्मात्रात् परमं ब्रह्म चिन्मात्रान्नास्ति कोऽपि अखण्डैकरसं ब्रह्म चिन्मात्रान्न हि विद्यते सदोदितं परं ब्रह्म ज्योतिषामुदयो यतः यस्मिन् प्रलीयते शब्दस्तत्परं ब्रह्म गीयते सर्वशक्तिपरं ब्रह्म नित्यमापूर्णमद्वयम् सत्ता सर्वपदार्थानां गम्यं ब्रह्माभिदं पदम् परं ब्रह्म परं सत्त्वं सच्चिदानन्दलक्षणम् अक्षरं परमं ब्रह्म निर्विशेषं निरञ्जनम् ब्रह्मैवैकमनाद्यन्तमध्येवत् प्रविजृम्भते न किश्चिद्भावनाकारं यत्तद्ब्रह्म परं विदुः एकमेवाद्वयं ब्रह्म नेह नानास्ति किञ्चन ब्रह्मैव विद्यते साक्षाद्वस्तुतो वस्तुतोपि च तद्विद्याविषयम् ब्रह्म सत्यज्ञानसुखाद्वयम् शान्तं च तदतीतम् च परम् ब्रह्म तदुच्यते अनुभूति परं तस्मात् सारं ब्रह्मेति कथ्यते यदिदम् ब्रह्मपुच्छाख्यं सत्यज्ञानाद्वयात्मकम् सद्रूपं परमं ब्रह्म त्रिपरिच्छेदवर्जितम् तद्ब्रह्मानन्दमद्वन्द्वं निर्गुणं सत्यचिद्गणम् सर्वाधिष्ठानम् अद्वन्द्वम् परं ब्रह्म सनातनम् प्रज्ञानमेव तद्ब्रह्म सत्यप्रज्ञानलक्षणम् अस्तीत्युक्ते जगत्सर्वं सद्रूपं ब्रह्म तद्भवेत् भातित्युक्ते जगत्सर्वं भानं ब्रह्मैव केवलम् ब्रह्ममात्रं चिदाकाशं सच्चिदानन्दमद्वयम् णोऽन्यतरसंनास्ते ब्रह्मणोऽन्यज्जगन्न च ब्रह्मणोऽन्यहं नास्मित्फलं नहिन्यृणं नास्ते ब्रह्मणोऽन्यद्गुरुर्नास्ते ब्रह्मणोऽन्यसद्वपुः नित्यानन्दमयं ब्रह्म केवलं सर्वदा स्वयम् बीजं मायाविनिर्मुक्तं परं ब्रह्मेति कीर्त्यते मद्रूपम् मद्वयं ब्रह्म आदिमध्यान्तवर्जितम् सर्वत्रावस्थितं शान्तं चिद्ब्रह्मेत्यनुभूयते सिद्धान्तोऽध्यात्मशास्त्राणां सर्वापवनव एव हि ना विद्यास्तेहनो माया शान्तं ब्रह्मेदमक्लमम् स्वात्मन्यारोपिता शेषा भासवस्तु निरासतः स्वयमेव परं ब्रह्म पूर्णमद्वयमक्रियम् परं ब्रह्म राम एव परं तपः राम एव परं तत्त्वं श्रीराम ब्रह्मतारकम् चिद्रूपमात्रं ब्रह्मैव सुच्चिदानन्दमद्वयम् ऋतं सत्यं परं ब्रह्म सर्वसंसारभैषजम् ब्रह्मचिद्ब्रह्मभुवनं ब्रह्मभूतपरम्परा ब्रह्माहं ब्रह्मचिच्छत्रुब्रह्म चिन्मित्रबान्धवाः ब्रह्मरूपतया ब्रह्म केवलं प्रतिभाषते जगद्रूपतयाप्येतद्ब्रह्म एव प्रतिभाषते विद्याविद्यादिभेदेन भावाभावादिभेदतः गुरुशिष्यादिभेदेन ब्रह्मैव प्रतिभासते इदं ब्रह्म परं ब्रह्म सत्यं ब्रह्म प्रभुर्हि सः कालो ब्रह्म कला ब्रह्म सुखं ब्रह्म स्वयं प्रभम् एकं ब्रह्मद्वयं ब्रह्म मोहो ब्रह्म शमादिकम् दोषो ब्रह्म गुणो ब्रह्म दमः शान्तं विभुप्रभुः लोको ब्रह्म गुरुर्ब्रह्म शिष्यो ब्रह्म सुदाशुभः पूर्वं ब्रह्म परं ब्रह्म शुद्धं ब्रह्म शुभाशुभम् जीव एव सदा ब्रह्म स्वयं ब्रह्मसनातनम् इति सार्धान्तिकब्रह्मस्वरूपवाक्याने चतुर्नवतिः सप्तदशं प्रकरणं समाप्तम्